हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे अोध्याखण्डे द्वादशे सर्ग राज्ञो दशरथस्य चिन्ता विलापश्च तेन कैकेय्य भर्तनं शान्सनं तादृशवर्याञ्चातो विनिर्वर्तितुम् अनुरोधकरणं च ततः श्रुत्वा महाराज कैकेय्य दारुणं वचहे चिंता सामपेद मुहूर्त प्रततापचे किम बेयम दिवस स्वप्न चिंतमो मे अनुभूत व वा, मनसो वाप्यपद्रुवित त्राज नगछे तद सुखम प्रतिलभ्यत सौ कैके वाक्यता पिता कथितो विक्लव चैव व्याघ्रिं दृष्ट्वा यथा मृग असंवृत्तायामासीनो जगत्याम् दीर्घमुच्छ्वसन् मण्डले पन्नगो रुद्धो मन्त्रैरिव महविजय अहो धितितामरचो वाचम् उक्त्वा नराधिप मोहम् मापे चिरेण तु नृपसन्याम् प्रति लभ्य सुदुःखितः कैकेयीमब्रवीत् क्रुद्धौ निर्दहन् निव तेजस नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनी किं कृतं तव रामेण पापे पापं मयापि वदा ते जननी तुल्यां वृत्तिं वहति राघव तस्यैवं तम् अनर्थाय किन्निमित्तम् योध्यत त्वं मयात्माविनाशाय भुवनं स्व निषेविताय अभिज्ञानाम् नृपसुताय व्याल तीक्ष्णविषायथ जीवलोको यदा सर्वो रामस्याः गुणस्तमम् अपराधम् कमुद्दिश्य त्यक्ष्यामिष्टम् वयं सुतम् कौसल्यां च सुमित्रां चे। त्यजेयम् जै अपि वा श्रियम् जीवितम् चातु नो रामम् नत्वैव पितृवत्सलम् परा भवति मे प्रीति दृष्ट्वा तनयमग्रजम् अपश्यस्तस्तु मे रामम् भवति चेतनं तिष्ठे लोको विना सूर्यम् सस्यम् वा सलिलम् विना न तु रामम् विना देहे तिष्ठेत्तु मम जीवितम् तदलं त्यजतामेषे निश्चये पाप निश्चये अपि ते चरणो मूर्ध्ना स्पृशाम्येष प्रसीद मे किमर्थं चिन्तितं पापे प्रयापरमदारुणम् अथ जिज्ञासते मांसं भरतस्य प्रिय प्रिये अस्तु यत् तत् पूर्वम् व्याहृतं राघवम् प्रति समे ज्येष्ठ सुत श्रीमान् धर्म प्रियवादिन्य सेवार्थम कथितम् भवेत् तच्छ्रुत्वा शोकसन्तप्ता सन्ताप इति मां भृजम् आविष्टासि गृहे शून्ये सा परवशं गता इच्छा कोणाम् कुले सम्प्राप्तस्तु मह यन्नयम् अनयो नय सम्पन्ने यत्र ते विकृताम् वै न हि किञ्चिदयुक्तम् वा विप्रेयम् वा पुरमव अकरोत् तम् विशालाक्षि तेन न श्रद्दधाम्बिते नूते राघवर्तुल्यो भर्ते न महात्मनः कथा कृथयसे मम तस्य धर्मात्मनो देवी वने वासं यशस्विन् कथं रोच से भीरु नववर्षाणि पञ्चते अत्यन्त सुकुमारस्य तस्य धर्मे कुत कथं रोचय से वासम् अरण्ये शुभदारुणे रोचयस्य भिरामस्य रामस्य शुभ तव शुश्रूषण माणस्य किमर्थं विप्रवासनम् राम्भो हि भर्तात् भूय तव शुश्रूषते सदा विशेषं त्वयि तस्मात् भरतस्य न लक्ष्ये शुश्रूषाम् गौरवं चैव प्रमाणं वचन कस्तु भूय स्तरं कुर्यात् अन्यत्र पुरुषश्च भ बहूनाम् स्त्रीसहस्राणाम् बहूनाम् च उपजीविनम् परिवादोपवादो वा राघवे नोपपद्यते सान्त्वयन् सर्वभूतानि रामशुद्धेन चेतत गृह्णाति मनज व्याघ्र प्रियै विषयवासिनः सत्यन लोकाञ्जयति राघवे गुरुन् शुश्रूचय वीरो धनुष युधि शात्रवान् सत्यं दानं तपस्यागो विस्तृता शौच माध्यवम् विद्या च गुरुशुश्रूष ध्रुवाण्डे सा तस्मिन् रार्गवसम्पन्ने देवे देवोपमे कथम् पापम् आशन्सते राम्बे न स्म्य प्रिय वाक्यं लोकवादि स कथम तत्ते राक्ष तपस्या सत्यम धर्म कृतज्ञता अप्यहि चूता मम वृद्ध कैकेय गपस्वीन लप्यम सेुण्यम कर्मर् पृथिव्या सागरातायाकिचिदिगम्यम तव दाया मा चम मन आवेश अंजलि कूर्मी कैकेयी पाद चा स्शा शरण से मा धर्म मृशे दुखा भी विलपन्तम् अचेतनं घूर्णमानम् हराजम् शोकेन समभिप्लुतम् पारं शोकार्णवस्याशु प्रार्थयन्तम् पुनः पुनः पत्युवाचाथ कैकेयी रौद्रा रौद्रतरम् वचहे यदि दत्त्वा वरोराजम् पुनः प्रत्यनुतप्यसे धार्मिकत्वम् कथम् वीरे पृथिव्यां कथयिष्यति यदा समेता भवेत् त्वया राजा कथयिष्यन्ति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि यस्या प्रसादे जीवामि या च माम् अभ्यपालयेत् तस्या मया मिथ्या कैकय्या इति वक्ष्यसि किल्विषं तं नरेन्द्राणां करिष्यसि नराधिप यो दत्त्वा वरमद्येव पुनरन्या निभाषते शभ्यशेन कपोटीये स मां सम् पक्षिणे ददौ अलर्के चक्षुषी दत्त्व जगम गतिमुत्तमान् सागर समयम् कृत्वा न वेलाम् अतिवर्तते समयं आमृतम् काशी पूर्ववृत्तम् अनुस्मरन् तत्त्वं धर्मम् परित्यज्य <small> रामं राज्ये भिषेच्य च स कौशल्य नित्यम् रन्तुम् इच्छसि दुर्मते भवतु धर्मो धर्मो वा सत्यं वा यदि वा नृतम् यत् त्वया संस्कृतम् मह्यम् तस्य नास्ति व्यतिक्रमः अहम् हि विषमद्यैव पीत्वा बहु तव घृतः पश्यत मरिष्यामि यद्यभिषिच्यते एकाहम् अपि पश्येयम् यद्यहं राम मातरं अञ्जलिम् प्रति गृह्णन्ति श्रेयो ननुमुति मम भरते नात्मा चहम् शपेते मनुजाधिपे यथा नान्येन तुष्येयम् कृते रामः विवासनात् एतावदुक्त्वा वचनम् कैकेयी विररामः विलपन्तं च राजानम् न प्रति व्याजहारस श्रुत्वा सुराजा कैकेय्या वाक्यम् परमशोभनम् रामस्य च वने वासम् ऐश्वर्यं भरतस्य च नाभ्यभाषतकैकेयीम् मुहूर्तम् व्याकुलेन्द्रियः प्रैषतानिमिषो देवीम् ियवादिनीं तान् हि वज्रसमां वाचम् आकर्ण्य हृदय प्रियां दुःखचोके मयिं श्रुत्वा राजा न सुखितोऽभवत् स देव्या व्यवसायं च घोरं च शपथं कृतं जात्वा रमेति निश्वस्य चिन्नत रुवापत नष्टचित्तो यशोन्मत्तो विपरी यथ तो यथा सर्पो बभूव दीनया तुरय वाच अनर्थम भूतो पहत कम कमुपदेश भूतचिव बुवंसी शीले शील भिजानाम्यहं पुरा बालाय सिदानीं ते लक्ष्ये विपरीतवेत् कुतो वाते भयं दातम् या त्वम् एवं विदं वरं राष्ट्रे भरतमासेन वृणीषे राघवं मने विरमयितेन भावेन त्वं मित्रेनानृतेन च यदि भर्तु प्रियं कार्यम् लोकस्य भरतस्य च नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणे किं न दुःखं मलिकम्बिरामे च पश्यसि न कथञ्चिदृते राम भरतो राज्यमावसेत् रामात् पीहितं मन्ये धर्मतो बलवत्तरम् कथं रामस्य गच्छेति भाषिते मुखवर्णं विवर्णं तु यथैवेन्दुमुपप्लुतम् तान्तु मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् कथं द्रक्ष्याम्यपावृत्तां परैरेव हतां च भूम् किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागता शरम् राज्यम् अकारयत् यदा हि बहवो वृद्ध गुणवन्तो बहु श्रुतः परिप्रक्षन् च काकुर्थम् कृष्यमानेन कुत्र मया यदि सत्यम् द्रवीम्येतत् तदसत्यम् भविष्यति किम् माम् वक्ष्यति राघवे नमासिते किं चैनां प्रतिवक्ष्यामि कुत्सा विप्रियं मीदृशम् यदा यदा कौसल्य दासीव च सखीव च भार्यावद्भगिनीवच मातृवच्चोपतिष्ठति सततं प्रियकामामे प्रियपुत्रा प्रियम्बर नामया सत्कृता देवी सत्काराः कृते तव इदानीम् तत्तपति माम् यन्नय सुकृतम् त्वयि अपथ्य व्यञ्जनोपेतम् भुक्तम् अन्नम् इव त्वरम् विप्रकारम् च रामस्य सम्प्रयाणम् मनस्य च सुमित्रा प्रेक्ष्य वै भीता कथम् मे विश्वसिष्यसि देहि श्रोशति द्वयमप्रियम् मार्च पञ्चत्वमापन्नम् रामम् चैवमाश्रितम् वैदेही बे प्राणान् शोचन्ति क्षपयिष्यति हीना हिमवतः पार्श्वे किन्नरेणैव किन्नरे न हि रामम् दृष्ट्वा प्रवसन्तम् महावे चिरम् जीवितुमाशंसे रुदन्तीं चापि सा नूनम् विध्वा राज्यम् स पुत्रा कारयिष्यसि सतिं त्वान् मामत्यन्तम् व्यवस्यामि सतीं सतीम् रूपिणीम् विष संयुक्ताम् मजराम् नरः अनृतैर्बत मां सान्त्व तांते। शान्त्वयन्ति स्म भाषते गीतशब्देन संवृध्य लुब्धो मृगम् अनार्य इति मामार्या पुत्र विक्रायकम् ध्रुवम् विकरीष्यन्ति रथ्यासु स्वरापम् ब्राह्मणं यथा अहो दुःखम् अह कृष्णम् यत्र वाच क्षमे तव दुःखम् एवं विधम् प्राप्तम् पुराकृतम् इव शुभम् चरं खलु मया पापे तम् पापे नाभिरक्षिता अज्ञानादुपसप्त सम्पन्ना रज्जुरुद्बन्धने यथा रमधं मुत्युं ताम्नाभिलक्षये बालो रो कृण सर्पम् विवासृशम् तन्तु मां नूनम् आक्रोष्टुमर्हसि मया हि अपितृकपुत्र स्वयम् आत्मा दुरात्मनः बालिशो बतकामात्मा राजा दशरथो भृशम् श्रीकृते य प्रियम् पुत्रम् वनम् प्रस्थापयिष्यति वै वेदैश्च भोगकाले महत्कृष्णम् पुनरेव प्रपत्स्यते नारम् द्वितीयम् वचनम् पुत्रो माम् प्रतिभाषितुम् ढमित्येव वक्ष्यति यदि मे राघव कुर्यात् वनम् गच्छेति चोदितः प्रतिकूलम् प्रियम् न तु वत्सः करिष्यति राघवे हि वनम् प्राप्ते सर्वलोकस्यधिकृतम् मूर्त्यो रक्षमणीयं माम् नैष्यमक्षयम् मूर्ते गते रामे ुङ्गवे इष्टे मम जने शेषे किं पापं प्रतिपच्च कौसल्या मां च रामं च पुत्रो च यदि हास्यति दुःखानि सहती देवी मामेव अनुगमिष्यति कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिषे प्रक्षिप्य नरके साकम् कैकय सुखिता भव मैं राण शाश्वत सत्कृतलम्षोभ्यम आकुल पालय प्रिय भरत सेम प्रव्राजनम भवत भवेत, मे भर काशी प्रेतकृत गतायुष गते रामे, वनम पुरुष भुङ्गवे ते दानं विधवा राज्यं स पुत्र कारयिष्यति तं राजपुत्री मम वेश्मली अकृष्टि चातुलालोके ध्रुवरी भव च मे सर्वभूते चुचावन्या यथा पाप कुतस्तथा कथं रथे विभूर्या त्वा याश्वे च मुहु मुहुः पद्भ्यां रामहारण्ये वत्सो मे विचरिष्यति यस्य चाहारसमये सुदाकुण्डलधारिणः अहं पूर्वा पचन्ति स्म प्रसन्न पानभोजनम् स कथं नु कषायाणि सिक्तानि कटुकानि च भक्ष्यन् वन्यमाहरम् श्रुतो मे वर्तयिष्यति वस्त्रसम्बद्धो भूत्वाय चिरसुखोचितः काशाय परिधानस्तु कथम् रामो भविष्यति कस्येदम् दारुणम् वाक्यम् एवंविधमपीरितम् रमस्यारण्यगमनम् भरतस्याभिषेचनम् दैघस्तु योचितो नाम शास्वार्थ परयणह। न ब्रवीमि श्रियं सर्व भृतस्यैव मातरम् अनर्थभावे स परेण शन्ते ममानुतापाय निवेशितासि किमप्रियम् पश्यति मन्निमित्तम् हितानुकिण्यथवापि राम्भे प्रत्यजेयू पितरोऽपि पुत्रान् भार्यापतिं चापि कृतानुराग कृष्णम् हि सर्वम् कुपितम् जगत् स्यात् दृष्ट्वैव रामम् निमग्नम् अहम् पुनर्देव कुमाररूपम् अलङ्कृतन्तम् सुतमावृजन्तम् नन्दामि पश्यन्निव निव दर्शनेन भवामि दृष्ट्वैव पुनर्युवै विनायि सूर्येण भवेतृवृत्ति वर्षता वज्रधरेण वापि रामं तु गच्छन्तमिते समीक्ष्य जीवे न कश्चित् चेत् सा मे विनाश का मा महिता आवासयम् मृत्युमिव आत्मनस्त्वम् चिरम्बताङ्केन धृतासि सर्पि महाविशा तेन हतोऽस्मि मया च रामेण स लक्ष्मणेन प्रजास्तु हीनो भर्तस्व यात् पुरं च राष्ट्रम् च निहत्य बान्धवन् ममाहितानाम् च भवाभिर्चिणि दृश्यन्त वृत्ते व्यसन प्रहरिणि प्रसह्य वाक्यम् यदि ते तेन मुखात् विशीर्यमाणा दशना सहस्रधाय न किञ्चिदाह इदमा प्रियं वचो न वेत्ति राम पुरुषाणि भाषितुम् कथं तु रामे अभिराम वदिनी ब्रविषि रोचान् गुणनीत्यसम्मते प्रताम्येव प्रज्ज्वलवा प्रणश्यव सहस्रशो वा स्फुटिताम् मयिं रज न ते सुधरुणम् ममायितं के के राजपांसने शुरूपमां नित्यमस प्रियं वदाम् सुदुष्टभावां सकुलोपगतिनीम् न जीवितुम् त्वां विषये मनुरमाम् दिधक्षमाणाम् हृदयं च बन्धनम् न जीवितम् मेति कुतः पुनः सुखम् विनात्मजेनात्मवतां कुतोरति ममायि तं देवी न कर्तुमरसि स्पृशामि पातु मे स भूमि पालो विलपन्न नाथ वेत् श्रिया गृहीतो हृदे पपात देव्या चरणौ प्रसारितौ उभाव प्राप्य कथान्तुरथाय इच्छाशे श्रीमद्रावणे वाल्मीकि अधिकार्ये अयोध्याकाण्डे द्वादशे सर्गे श्रीसीतारामचन्द्राणमतु